एवं स्तुवन्नपि नागान् यदाते ते कुण्डले नालभत् तदा स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटम् वयन्त्यौ तस्मिन्स्तन्त्रे कृष्णाः सितांश्च तन्तवश्चक्रम् चापश्च्यद्वादशारम् षड्भिः कुमारैः परिवर्त्यमानं पुरुषञ्चापश्च दश्रञ्च दर्शनीयम् स तान् सर्वान् एभिर्मन्त्रवदेव श्लोकैः त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यम् चरति ध्रुवेऽस्मिन् चक्रे चतुर्विंशति पर्वयोगे षड्वै कुमाराः परिवर्तयन्ति तन्त्रञ्चेदम् विश्वरूपे युवत्यौ वयतस्तन्तून् सततम् वर्तयन्तौ कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्त्रम् भुवनानि चैव वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता कृष्णेवसानो वसने महात्मा सत्यान्वृते यो विनक्ति लोके यो वाजिनम् गर्भमपाम् पुराणम् वैश्वानरम् वाहनमभ्युपैति नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय ततः स एनम् पुरुषः प्राह प्रीतोऽस्मि स्तोत्रेण किं ते प्रियम् करवाणीति स नागामे वशमेयुरिति स चैनम् पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति ततोष्वस्यापानमधमत् ततोऽश्वाद्दमानात् सर्वस्रोतोभ्यप्पावकार्चिषः स धूमानिष्पेतुः ताभिर्नागलोक उप धूपितेथ सम्भ्रान्तस्तक्षकोऽग्नेस्तेजोभयात् विषण्णः कुण्डले गृहीत्वा सहसा भवनम् निष्क्रम्योत्तङ्कमुवाच इमे कुण्डले गृह्णातु भवानिति स प्रतिजग्राहोत्तङ्कः प्रतिगृह्य च कुण्डले अचिन्तयत् अद्य तत् पुण्यकमुपाध्यायान्या दूरम् चाहमभ्यागतः स कथम् सम्भावयेयमिति तत एनम् चिन्तयानमेव स पुरुष उवाच उत्तङ्क एनमेवाश्मधिरोह त्वां क्षणेनैव उपाध्यायकुलं प्रापयिष्यतीति स तथेत्युक्त्वा तमश्मधिरुह्य प्रत्याजगामोपाध्यायकुलम् उपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टा उत्तङ्को नागच्छतीति शापायास्य मनो दधे अथ तस्मिन्नन्तरे स उत्तङ्कः प्रविश्य उपाध्यायकुलम् उपाध्यायानीमभ्यवादयत् ते चास्यै कुण्डले प्रायच्छत् सा चैनम् प्रत्युवाच देशे कालेभ्यः गतः स्वागतं ते वत्स त्वमनागसि मया न शप्तः श्रेयः तवोपस्थितं सिद्धिमाप्नुहीति अथोत्तङ्क उपाध्यायमभ्यवादयत् तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किञ्चिरं कृतमिति तमुत्तङ्क उपाध्यायम् प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन् कर्मणि तेनास्मिन् नागलोकम् गतः तत्र च मया दृष्टे स्त्रियौ तन्त्रेधिरोप्य पटम् वयन्त्यौ तस्मिंश्च कृष्णाश्चिताश्च तन्तवः तत्र च मया चक्रम् दृष्टं द्वादशारं शच्चयम् कुमाराः परिवर्तयन्ति तदपि किम् पुरुषश्चापि मया दृष्टः स चापि प्रमाणो दृष्टः स चापि च मया ऋषभो दृष्टः तं च पुरुषोऽधिरूढः तेनास्मि सोपचारमुक्त उत्तङ्क ऋषभस्य पुरीषम् भक्षय उपाध्यायेनापि ते, उपाध्याये ते ततस्तस्य वचनान् मया तद् ऋषभस्य पुरीषमुपयुक्तम् स चापि कः तदेतद् श्रोतुम् किं तदिति स तेनैवमुक्त उपाध्यायः प्रत्युवाच ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनीः तदपि तच्चक्रम् द्वादशारम् षड्वै कुमाराः परिवर्तयन्ति तेऽपि षड्रुतवः द्वादशाराद्वादश मासाः संवत्सरश्चक्रम् यफ पुरुषस्स पर्जन्यो योष्वस् सोऽग्निः य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट् यश्चैनमधिरूढः यदपि ते भक्षितम् तस्य ऋषभस्य पुरीशम् तदमृतम् तेन खल्वसि तस्मिन् नाग भवने स हि भगवान् इन्द्रो मम सखा त्वदनुक्रोशादिमम् अनुग्रहम् कृतवान् तस्मात् कुण्डले गृहीत्वा पुनरागतोऽस्मि तत् सौम्य गम्यताम् अनुजाने भवन्तम् श्रेयो वाप्स्यसीति स उपाध्यायेनानुज्ञातो भगवान् उत्तङ्कः क्रुद्धस्तक्षकम् प्रति चिकीषमाणो हास्तिनापुरम् स हास्तिनपुरम् प्राप्य न समागच्छत राजानमुत्तङ्को जन मेजयम् पुरा तक्ष शिला दृष्ट्वा समन्तान् मन्त्रिभिर्वृतम् तस्मै जया शिषः पूर्वम् यथा न्यायम् प्रयुज्यस उवाचैनम् वचः काले शब्दसम्पन्नया गिरा उत्तङ्कौ उवाच अन्यस्मिन् करणीये तु कार्ये पार्थिवसत्तम बाल्यादिवान्यदेव त्वम् कृशेऽनृपसत्तम सौतिर्वाच एवमुक्तस्तु विप्रेण स राजा जनमेजयः अर्चयित्वा यथा न्यायम् प्रत्युवाच द्विजोत्तमम् जनमेजय आसाम् प्रजानाम् परिपालनेन स्वम् क्षत्र धर्मम् परिपालयामि प्रब्रूहि मे किम् करणीयमद्य येनासि सौतिरुवाच स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्य कृताम् उवाच राजानमदीन त्वमेव कार्यम् नृपते कुरुष्व उत्तङ्कौ तक्षकेण महेन्द्रेन्द्र येन ते तस्मै प्रति कुरुष्व त्वम् पन्नगाय दुरात्मने कर्मणः तद्गच्छा पचितिम् राजन् पितुस्तस्य महात्मनः तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना पञ्चत्वमगमत् राजा वज्राहत इव बलदर्प समुत्सिक्तस्तक्षकः पन्नगाधमः अकार्यम् कृतवान् पापो योदशत्पितरं तव राजर्षिवंश गोप्तारमर प्रतिमम् नृपम् न्यवर्तयत पापकृत् होतुमर्हसितम् पापम् ज्वलिते हव्यवाहने सर्पसत्रे महाराज त्वरितम् एवं पितच्चाचितितवांस्व भव्यसी मम प्रिय सुमहत्तराजन भविष्य कर्मण पृथिवी पाल मेन दुरात्मना विघ्न कृत महाराज कुरर्धम चरत नघ सौतिवाच यहुवा नृपतिकाय चु कोप उत्तक वक्य हषा दी हव विषा यथा अपृछत्स प्रति तद्व ही यदैव वृत्तम् पितरमुत्तङ्कादर्शृणोत्तदा इति श्रीमहाभारते आदिपर्वणि पौष्यपर्वणि तृतीयोऽध्यायः